भगवद्गीता चाप्टर् लेवन् वर्षस् वन् टु 10 अध एकादशोऽध्यायः अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंनिधं यत्वयोक्तं वचस्तेन मोहोऽयं विगतो मम भवाप्ययौ हि भूतानां श्रुतौ विस्तरसोमय त्वत्तः कमलपत्राक्षमाहाप्यमभिचाव्ययम् एवमेतव्यधात्तत्त्वमात्मानं परमेश्वर द्रष्टुमिच्छामि दे रूपमैश्वरं पुरुषोत्तमम् मन्यसे यदि तक्ष्यं मया द्रष्टुमिति प्रभो योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् श्रीभगवानुवाच पश्य मे पार्थरूपाणि शतशोधसहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च पश्यादित्यान्वसून् रुद्रानश्विनौ मरुदस्तथा बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारद इकैकस्थं जगत्कृष्णं पश्याद्य सचराचरं मम देहे बुदा केशयच्चान्यद्रष्टुमिच्छसि न मां शक्यसे द्रष्टुमनेनैव स्व चक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् सञ्चय उवाज एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः दर्शयामास पार्पाय परमं रूपमैश्वरम् अनेकवक्त्रनयनमनेक अद्भुतदर्शनम् अनेकदिव्याभरणं दिव्यानेकोद्यथायुधम् भगवद्गीता चाप्टर् लेवेन् वर्सस् लेवेन्त् ट्वेण्टि दिव्यमाल्याम्भरतरं दिव्यगन्धानुलेपनं सर्वाश्चर्यमयं देवमनन्दं विश्वतोमुखम् विविसूर्यसहस्रस्य भवेद्युगदुद्धिता यदि वा सदृशी सा स्याद्वासस्तस्य महात्मनः तत्रैकस्तं जगत्कृष्णं प्रविभक्रमनेकधा अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ततः स विस्मयाविष्टो हृष्टरो माधनञ्जयः प्रणम्य शिरसा देवं कृताञ्जलिरभाषध अर्जुन उवाच पश्यामि देवांस्तव देवदेहे सर्वांस्तदा भूतविशेषसङ्गाम् ब्रह्माणमीशं कमलासनस्थं ऋषींश्च सर्वानुरगांश्च दिव्यान् अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्दरूपं नान्दं न मद्यं न पुनस्तवादिं पश्यामि विश्वेश्वरविश्वरूप किरीडिनं गदिनं चक्रिणं च ते जोराशिं सर्वतोमन्दं पश्यामि त्वां दुर्निरीक्ष्यं समन्दात् दीप्तानलार्कद्युतिमप्रवेयम् त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् त्वमव्ययः शाश्वतधर्मगोक्ता सनातनस्त्वं पुरुषो मदोमे अनादिमद्यान्तमनन्दवीर्यमनन्दबाहुं शशिसूर्यनेत्रं पश्यामि त्वां दीप्त उदाशवक्त्रं स्वते च सा विश्वमिदं तपन्तम् या वा प्रथिव्योरितमन्तरं हिव्याप्तं त्वयैकेन दिशश्च सर्वाः दृष्ट्वाद्भुतं रूपमुग्रं त्ववेदं लोकत्रयं प्रव्यहितं महात्मन् भगवद्गीता चाप्टर् लेवन् वर्षस् ट्वेन्टि वन् 30 तर्टि सुरसंका त्वां केचिद्भिदा प्रालयो गृणन्ति सुत्युक्त्वा महर्षिसिद्धसङ्घास्तु वन्दित्वां स्तुदिभिक्पुष्कलाभिः रुद्रादित्यावसवो यजसाध्यां विश्वेश्विनौ मरुदश्चोष्मपाश्च गन्धर्वयक्षासुरसिद्धसङ्घावीक्षन्दे त्वां विस्मिताश्चैव सर्वे रूपमगत्ते बहुवक्त्र नेत्रं महाबाहो बहुबाहुरुभागं बहूदरं बहुदंष्ट्राकरालं बहु दृष्ट्वा लोगात्प्रव्यदिदास्तथा नभस्पृशं दीप्तमनेदवर्णं व्यास्ताननं दीप्तविशालनेत्रम् दृष्ट्वापि त्वां प्रव्यदिदान्तरास्मा भृतिं न विन्दामिशमं च विष्णो दं प्राकलानि च देमुखानि दृष्ट्वैव कालानलसन्निभानि शिशो न जाने न लभे च शर्मप्रसीदेवेश जगन्निवास अमी चत्वाध्रुतराष्ट्रस्य पुत्रा सर्वे सदैवावनिपालसङ्घैः भीष्मो द्रोणः सुदपुत्रस्तदा सौ सभास्मदीयैरवियोधमुख्यैः वक्त्राणि ते त्वरमाणाविशन्दिकराणानि भयानकानि केचिद् विलग्ना दशान्तरेषु सम् दृश्यन्ते चूर्णितैरुत्तमाङ्गैः यथा नदीनां भगवोम्बुवेग समुद्रमेवाभिमुखाद्रवन्दे तथा तवामि नरलोधवीराविशन्ति वक्त्राण्यभिविज्वलन्ति यदा प्रदीप्तं ज्वलनं पदङ्गा विशन्ति नाशाय समृद्धवेगाः तथैव नाशाय विशन्तिलोगास्तवाविवक्त्राणि समृद्धवेगाः ले लिख्यसे ग्रसमानसमन्दालोगान् समग्रान् वदनैर्ज्वलब्धिः ोभिरावूर्य जगत्समग्रं वासस्तवोग्रा प्रदपन्ति विष्णु भगवद्गीता चाप्टर् इलेवन् वर्षस् थर्टि वन् टु फोर्टी आख्याहिमेको भवानुग्ररूपो नमोऽस्तु ते विज्ञातुमिच्छामि भवन्दमाद्यं न हि प्रजानामि तव प्रवृत्तिं श्रीभगवानुवाच कालोऽस्मि लोगक्षयकृत्प्रवृद्धो लोगान्समाहर्तुमिह प्रवृत्तः हृदेऽपि त्वां न भविष्यन्ति सर्वे ये वस्तिता प्रत्यनीकेषु योद्धाः तस्मात्त्वमुत्तिष्ठ य शो लभस्व जित्वा शत्रून्भुं स्वराज्यं समृद्धं मयैवैदेकदा पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् द्रोणं जीष्मं च जयद्रथं च कर्णं तदन्यानभियोधवीरान् मया हदांस्त्वं जगिमा व्यधिष्ठा योग्यस्वजेतासिरणे सपत्नान् सञ्जयौ वाजा एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेभमानः किरीडी नमस्कृत्वा भूय एवाह कृष्णम् सगद्गदं भीरभीरप्रणम्य अर्जुनौ वाजा स्थाने कृषिकेश तव प्रकृत्या जगत्प्रविष्यत्यनुरज्यते च रक्षान्ति बीजानिधि शोद्रवन्ति सर्वे ममस्यन्दिजसिद्धसङ्घाः कस्मात् सदेन नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्याधिकर्त्रे अनन्ददेवेश जगन्निवासत्वमक्षरं सदसत्तत्परं यत्त्वामादिदेवपुरुषपुराणत्वमस्य विश्वस्य परं वेतासि वेद्यं च परं च धाम त्वया तदं विश्वमनन्दरूपा वायुर्यमोऽग्नेर्वशाङ्घप्रजापदिस्त्वं नमो नमस्तेस्तु सहस्रकृत्व पुनश्च भूयोऽपि नमो नमस्ते नमः पुरस्तादधपृष्ठतस्ते नमोस्तुदे दे सर्वदयेव सर्व आनन्दवीर्यामिद विक्रमस्त्वं सर्वं समाप्नोषि ततोसि सर्वः भगवद्गीता चाप्टर् लेवन् वर्सेस 41 वन् टु सखेदि मत्वा प्रसवं यदुक्तं हे कृष्ण हे यादव हे सखेति अचानदामहि मानं तवेदं मया प्रमादात्प्रणयेन वादि यच्छावभासार्थमसकृतोऽसि विकारशय्यासनभोजनेषु ये गोदवाप्यच्युत तत्समक्षं तत्क्षामये त्वामसमप्रमेयम् विधासि लोकस्य चराचरस्य पूज्यश्च गुरुर्दरीयान् न त्वत्समोऽप्यभ्यधिगत्कुतोऽन्यो तस्म प्रणम्य प्रणिधाय कायं प्रसाधये त्वामहमीशमीड्यम् पिदेव पुत्रस्य सखेव सख्यो प्रियप्रियायार्षसि देव सोढुम् अदृष्टपूर्वं कृषितोऽस्मि दृष्ट्वा भये न च प्रव्यधिदम् अनोमे तदेव मे दर्शय देवरूपं देवेश जगन्निवास किरीदिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव तेनैव रूपेण चतुर्भुजेन सहस्रभाको भवविश्वमूर्ते श्रीभगवानुवच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् तेजोमयं विश्वमनन्दमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् न वेदयज्ञाध्ययनैर्नदानैर्नचक्रियाभिर्नतभोभिरुग्रैः एवं रूपः शक्यसं ऋलोके द्रष्टुं त्वदन्येन कुरु प्रवीर मा देव्यतामाजविमूढभावो दृष्ट्वा रूपं कोरमि दृङ्ममेदं व्यवेदभिप्रीतमना पुनस्त्वं तदेवमेरूपमिदं प्रपश्य सञ्चय वाच इत्यर्जुनं वासुदेवस्तदोक्त्वा स्वकं रोगं दर्शयामास भूयः आश्वासयामास भूत्वा पुनः सौम्यवूर् भगवद्गीता चाप्टर् लेवेन् वर्षस् फिफ़्टि वन् टु अर्जुन वाजा दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन इदानीमस्मि संवृत्तः सचेदा प्रकृतिं गतः श्रीभगवानुवाजा सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्म देवा अप्यस्य रूपस्य नित्यं दर्शनाकाङ्क्षिणः नासंवेदैर्न तपसा न दानेन न चेज्यया शक्य एवंविदो द्रष्टुं दृष्टवानसि मां यथा भक्त्या त्वनन्यया द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप मत्कर्मकृत् मत्परमो नर्वैरसर्वभूतेषु यत्समा मेदिपाण्डव ॐ तत्स इति श्रीमद्भगवद्गीतासु यपादशोऽध्यायः